मुद्गलपुराणम् खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायम् 47 सेवन् त्रिविधजगदाधारनिरूपणम् श्रीगणेशाय नमः शौनक उवाच कथं दशहरादेवी दशमी चाश्विने भवद कथम् तत्र शमीपूजाम् कुर्वन्ति देवतादयः सूत उवाच शङ्खं हत्वा महावीरं विष्णुः परपुरञ्जयः ददौ वेदान्विधात्रे स साङ्गोपाङ्गसमन्वितान् तान् दृष्ट्वा हर्षिदो ब्रह्मा संसारगणनायकं ततो गणेश्वरं वेदा ययुत्सृष्टाश्च तेन ये पुराकपिलरूपेण कर्मसिद्ध्यर्थनिर्मिताः हृदेषु वेदशास्त्रेषु शङ्खेन पापरूपिणा तद्दृष्ट्वा परमाश्चर्यं ब्रह्मा तुष्टाव तुष्टावविघ्नपं प्रार्थयामास वेदानां निर्विघ्नार्थं महामुने तदस्थं प्रत्युवाचैवाकाशवाणी महाद्भुदा सर्वैर्विधे शमीं पूज्य विघनहनो भविष्य या शमी स गणेशानो न भेदस्तते अद महाभाग पूजयस्व प्रशस्थान प्रशस्ता कुरानु वाणीस्थो वीररामगजाननः श्रुत्वादिहर्षितो ब्रह्मा वेदाय देवैः सहेश्वरैः मुनिभिस्तां प्रपूज्यैव वेदान् शस्तान् चकारः यस्मिन् काले महाविप्रपूजिता विधिना शमी आश्विनी दशमी तत्र सा याह्ने सा बभूवः तदोदशहराजाता सा शमी संयुतातिथिः तदर्थं शृणुभावेन सर्वकार्येषु सिद्धिदाम् दशदिक्षु स्थितान्येव भूतानि भयदानि च कार्यध्वं संप्रकुर्वन्ति क्रूराणि प्रबलानि च दशमी सन्ति सातानि शमीपूजाबलेन वै अधो दशहरा प्रोक्ता सर्वकार्यप्रसिद्धये शामी पूजा शमीपूजाविधिं कृत्वा सायाह्ने तान् अलोकयत् साङ्गोपाङ्गयुध्वेदांस्ततः सर्वानुपादिशदनाकार्यप्रसिद्ध्यर्थं दशम्यां शमीपूजनं शुक्लाश्विन्यां च सायाह्ने कर्तव्यं सर्वजन्तुभिः तेन विघ्नविहीनास्ते दशदिक्षुभ्रमन्ति चेद् सर्वसिद्धियुधा सर्वे भवन्ति नात्र संशयः दशदिक्षुस्थिदान् विघ्नान् दशहरामदा अद्य प्रभृति देवे स्या वार्षिकी भवा पूजयिष्यन्ति देवे स शमीं कार्यप्रवर्धिनीं वार्षिकं दुःखमुत्सृज्य स्थास्यन्ति सुखभोगिनः पूजयित्वा शमीं विप्रा वेदान् ये पुस्तकस्थितान् पठिष्यन्ति पुराणादीं स्तेषां ज्ञानं भविष्यति न यो दशहरायां तु शमीं पूजयदे कदा स नानाविघ्नसंयुक्तो नरकें ते प्रगच्छति एवमुक्त्वा स्वयं ब्रह्मा जगाम वेदसंयुधः स्वलोकं शङ्गराद्याश्च जग्मुर्विप्रा मुने तदादि चाश्विनी शुक्ला दशहरा बभूवः दशमी शमी संयुक्ता सर्वार्थे सिद्धिदायिनी अदोवश्यं स्वभावेन पूजयन्ति शमीं नराः देवा नागास्तथा वेदान् पठन्ते पाठयन्त्यपि इदं सर्वं समाख्यातं चरिदं शमीसम्भवं यशृणोति नरसोऽपि लभते पठतीप्सितम् चौनक उवाच किमाधारमिदं सर्वं वर्तते सुद तद्वद कर्माधीनं वदन्त्येव केजिदत्र मुनीश्वराः ईश्वराधीनमे दद्वै केजिच्छेदं यदृच्छया त्रिविधं तेशुकिं सत्यं न्यायदेन मुनीश्वरैः सूद उवाच त्रिविधं प्रवदन्त्येव मुनयो वेदिनः तत्सर्वं सत्यरूपं त्वं जानीहि मुनिसत्समा गणेशेन कृतं सर्वं क्रीडार्थं स्वेच्छया मुने तत्र माया समाख्यादा सिद्धिरैश्वर्यदायिनी ऐश्वर्यमोहधरा सा बुद्धिर्मायिक उच्यते मायाभोगार्थमत्यन्तमदश्रमयुधो भवद माया मायिकयोगात् स गणेशो ब्रह्मनायकः क्रीडति नानन्यभाव न कोऽपि तत्र विघ्नेशप्रेरकस्तत्र विद्यते अतो यदृचया सर्वं वर्तते योगिनां हृदि अन्यच्च शृणुविप्रेष माया नानाभ्रमात्मिका सा सर्वभावेन कर्तुम् नैव तया सम्मोहितोऽत्यन्तम् मायिकष्टां चचालः तदा सक्ता युगा माया केन दे मायिकेन धृतादेवी चचाल विविधात्मिका मायिके मायिकेच्छावशेनैव संस्थिदानात्र संशयः यदा त्यक्ता महामाया मायिकेन महामुने तदा शक्ता न किञ्चित् सा कर्तुं जडप्रभावदः ईश्वराधीनभावेन वर्ततेत् सर्वमञ्जसा वदन्ति मुनः केचिद् ध्यानमार्गपरायणाः अन्यच्च कथयिष्यामि मायाकर्मस्वरूपिणी नानाभावयुधा नित्यं के लदित्रिविधा परा कर्मा कर्म विकर्माण्यचालयत्सर्वरूपिणी स्वर्गमुक्तिमहावीचिदायिनी त्रिविधेरदा यादृशं कुरुदे कर्म फलं भोक्ष्यति तादृशं कर्माधीनमिदं सर्वं वर्तते त्रिविधं किल शुभाशुभं कृतं कर्म भोक्तव्यं नात्र संशयः कल्पकोडि सदैर्वापि कृदं कर्मना न तं त्यजेद् एवं वदन्ति विप्रेषब्राह्मणा देहवादिनः धारणायां स्थितास्ते वै सत्यं शास्त्रेषु निश्चितम् अधैकभावनाम्बक्ष्ये त्रयाणां शृणुशौनकगणेशमाययाभ्रान्ता न नजानन्दि कुयोगिनः मायामायिकरूपेण संस्थितो गणनायकः क्रीडति स्वस्वभावेनानन्यभावपरायणः तस्येत् या महाविप्र ईश्वरश्चैव तिष्ठति मोहितो गणनाधेन जानादिन गजाननम् अहं श्रेष्ठः परं ब्रह्म मदाद्धारमिदं जगद मदिच्छया प्रवर्तन्ते जन्दवो नात्र संशयः यादृशी गणनाथस्येच्छ भवेत् तादृशं स्वयं करोतीश्वर आनन्दादो भेदो न दृश्यते कर्मरूपा महामाया गणेशेच्छा समन्विता चलते तं मोहिदाभ्रान्तिसंयुधा अहं श्रेष्ठा न सन्देहो मदाधारमिदं जगद सकलं कर्मभावेन धारयामि चराचरं यादृशी गणनार्थस्येच्छा भवेत्तादृशं स्वयं कर्म कुर्वन्ति चराचरात्मजीविनः अतस्त्रिविधकं विप्रेकलक्षाश्रितं मदं एवं बाधविहीनं तत्रिता संवर्तते सदा मायावादिन एवं तत्कर्माधीनं वदन्ति अद्वैतवादिन सर्वे ईश्वराधीनगं तथा योगिनः प्रवदन्े दद्यदृच्छाधीनगं जगद एवं सत्यं प्रमाणेन त्रिविधं मुनिषत्तमा ॐ तत्सदिति श्रीमदान्े पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्ट खंडे धूम्रवर्णचर जगदाधार निपणं नाम सप्तव्योध्याय ओं